आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान् भूमिपानथा विशश्च मान्यान् शूद्रांश्च सर्वानानयतेऽपि च वैशम्पायन उवाच समाज्ञप्तास्ततो दूताः पाण्डवे यस्य शासनात् आमन्त्रयाम्बभूवुश्च आनयंश्च परान्द्रुतं तथा परानपि शीघ्रगामिनः ततस्तेतो तु यथा कालम् गुन्ती पुत्रम् युधिष्ठिरम् दीक्षयाञ्चक्रिरे विप्र राजसूयाय भारत दीक्षितः स धर्मात्मा धर्मराजो युधिष्ठिरः जगामयज्ञायतनम् मृतो विप्रैः सहस्रशः भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः स चिवैः सह क्षत्रियैश्च अमात्यैश्च नर श्रेष्ठो धर्मो विग्रहवानि वा आ जग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् बह्वन्नाच्छादनैर्युक्तान् स गणानां पृथक् तेषु ते न्यवसन् राजन् ब्राह्मणानुपसत्कृताः कथयन्तीः पश्यन्तो नर्तकान् भुञ्जताम् चैव विप्राणाम् वदताम् च महास्वनः अनिशम् श्रूयते तत्र मुदितानाम् महात्मनाम् दीयताम् दीयतामेषाम् भुज्यताम् भुज्यतामिति एवं प्रकाराः सञ्जल्पाः श्रूयन्ते स्मत्र नित्यशः गवांशतसहस्राणि शयनानां च भारत रुक्मस्य योषितां चैव धर्मराजः पृथग्दौ प्रावर्ततैवं यज्ञस्य पाण्डवस्य महात्मनः पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ततो युधिष्ठिरो राजा पेषयामास पाण्डवं नकुलं हस्ति पुरं भीष्माय पुरुषर्षभः द्रोणाय धृतराष्ट्राय विदुराय कृपाय च भ्रातॄणां चैव सर्वेषां येणुरक्ता युधिष्ठिरे इति श्रीमहाभारते सभापर्वणि राजसूयपर्वणि राजसूयदीक्षायां त्रयस्त्रिंशोऽध्यायः